ॐ दा दा दा दा ते शृङ्गायिणो जायन्ताय विषगान् नेतिगाधाञ्चाजाय स्मेदिको हत्रं वेदं वत्सरो एवं दस्तं वत्सरयन्त्र रुद्धमभिजितं क्रियते समुद्रम् वा ये प्रप्लवन्ते के संवत्सरपयन्ति यो वै समुद्रस्य पारण्ण्यपुष्येतसरो वै समुद्रस्तस्यै चत्वारैक्लौ एवं वित्संवत्सरपयञ्च पूर्वोदिरात्रो दावुत्तरोपूर्वभागोत्तरप्राणः पूर्वपालवुत्तरः प्रयोधनम् उत्तर ज्योतिष्ठो वैश्वात्र भगवति ज्योतिरेव पुरस्तानुशः प्रायणे भवति चतुर्विंशतिसरः प्रयन्तरेव संवत्सरे प्रयतिष्ठन्ति त्रीणि षष्टिश्चेया ेव्यामुत्तरेभयतो लोकयन्ते ब्रह्मवाजनामदन्त्यासरेखेण देवगानेन पथेन ब्रूयाच्छन्तां सवे देवगानः पन्था गायत्रेष्टगते ज्यो दर्वे गायत्रे गौ स्पृष्टगाय जगति यदेव भवन्ति देवगानेनैव तत्पथायन्ति समानगुणालोको वेदामदेवलोकादेव नयन्य अन्यानुभवन्त्यलोका देवान्य ेव लोकमप्यारोहन्तो ब्रह्मसामम् भवतिषु वर्गस्य लोकस्याभिवृत्त्या वर्गस्य लोकस्याभिजित्ते मासिमादिपृष्ठान्युपयन्ति मासिमा सनिग्राह्याकृष्यन्ते मासिमा सेव वीर्यन्द्रमासाम्बधिष्ठित्या पृष्ठान् मासाम् पृष्ठान्युपयन्ति तस्मानुपरिष्ठा झोडदफलम् गृह्णन्ति त्रमाददाशङ्गाः से शृङ्गानिसन्ते निकारः ब्रह्मण्डलास्मोत्तिष्ठा मा वेदितासामत्वाहारेवो द्वादशो मासो संवत्सौ सम्पाद्योत्तिष्ठा वेदितासां द्वादशे वातिलिङ्गानि प्रावर्तन्त श्रद्धा वा श्रद्धा वाता यमायास्तु परा उभयोगाश्चान्यश्चेदपदेन खलु वान्ति विन्दति खलु दत्वादेन तस्मादेतर्दोसने थमे मातिपृष्ठान्युपयन्ति मध्यममुपयन्त्युत्तममुपयन्ति राहुल्याम्बैत्रे कश्चान्धमुपचेदन्ति रम् वेधापनाभ्यान् दोहाभ्यान्दवेदुदस्ताधोः क्षदेशान्द्वारिशरत्त उपचेदन्ते संवत्सलकम् सम्पाद्योः उत्तमे मासिष्ठान्युपेयस्तत् लिलबानाज्ञम् पशुनवरुन्धरे समुद्रम् वा ये तेन भारो हारम् प्रप्लवन्ते ये संवत्सलमुपयन्ति ृहतरे मध्य समुद्र प्रमहन्मतासर्गहत सम्याजमा सर्वान्मान बंधते समान्यलो भवन्त्य मनुष्यलोको वाचो मनुष्यलोका देवनयन्त्यन्यजन्यत्सामभोदेवलोको वै सामदेवलोका देवान्यम् मनुष्यलोकम् प्रत्यवलोहन्तोपयन्त्य जगति वैच्छन्दानं प्रत्यवलोहं चाक्रेण गृहापृष्ठाणि त्रयत्रितुं शङ्क्यस्तो तस्माच्चम् सङ्कणीयान् प्रत्यवलोहनि वैश्वकर्मणो लिख्यते विश्वा अवरुन्तर आदित्यो गृष्ट्यद इयं प्रजलक्तम् कन्यानव्यो गृष्ट्ये देवनस्व प्रजात्या अवान्तरम् वैदशरात्रेण प्रजापने प्रजात्र भवने प्रजा रेव तद्गजमानाशन्तरे तागुभवादङ्गस्योर्वाजनसत्रस्यर्ध्यवाद्यश रात्र यदश रात्र भवनि सत्यस्पर्धा अथोजनेव महस्विलापक्रिय शाति ्यातां महदिराज्ये प्रादरणवागमुया देवता पूर्वश्चन्दागं च वृन्ते शृण्मतेवदं दे कुरुयात्रादस्सवदा देवेधामिन्द्रं वृन्देशो खल्वाहुस्तवनमुखे सवनमुखे कार्ये सवनमुखात्सवनमुखा देवेश इन्द्रं वृन्ते दे संवेशायोपवेशायकार्याष्टभो जगत्याभक् पङ्क्त्या प्रातस्तवदे कलशो दीर्घे वैष्टवेशिवष्टवतेरिक्ष्यते विष्णं तच्छिपविष्टमभ्य शिव विष्टोऽ देवातिरिक्तम् दधाक्षसोऽक्ते नैवातिरिक्त्वावरुन्धदै मध्यन्ति नैदेशत्कारनितम् सामकुर्यवशषत्कारो वेदज्ञस्य प्रतिष्ठा प्रतिष्ठामेवेन गमयन्ते यसमन एतदेव षडेर्मासा सम्पाद्या हृत्जन्ति सम्पाद्याः वृक्षजन्त्यद्धपासेरि माता सम्पश्यन्त्य मा वाश्च सम्पाद्याः वृक्षजन्त्य मा वाश्चाहि प्राणमस्ते सम्पाद्याः रुक्तजन्ति संवत्सरा एवदप्राणन्द प्राणन्द्यथापनद्वा विपदत्येव संवत्सरो विपदेच्छयत्पोर्नमास्यामासा सम्पाद्याः रुक्तजन्ति संवत्सरा एवलानन्द सत्यन क्षन्ति मोत्तमा देवे देवास्याः सम्पाद्याः उत्जन्ति देवानामेव तद्धज्ञेन यज्ञम् प्रत्यवरोहन्ति विवादेतद्यज्ञम् छिन्दन्ति यक्षरगं सन्तमसाः उत्त्यजन्ति प्राजापत्यम् पशुमा नभन्ते प्रजापतिः सर्वा देवता देवताभिदेव यज्ञकम् सन्तन् वन्त्ये लेहं सृजन्ति नायै यत् सा नाय्यम् भवति तेनैव समनान् नयन्ति समपहोज भक्षयन्ते तत् सामपेधा ये तर्हि यथायतनं वा एते शवनं भाजो देवता गच्छन्ति देहलक्षन्ति नु समनम् परोडाशा निर्भवन्ति यथाय तना देव सवनभाजो देवतापरन्धे वननेतादृशपादान् न्द्राने छन्दागस्तेव त्वारन्धदेवैश्वरेवम् चलन्ति वैश्वरेवम् वेदति ब्रह्मराजहस्तद्वाहुत्सृज्य वे वेत्यमाभास्यायाञ्चमोन्नभासृज्यमित्याहुरेते यज्ञम् वह नेत्सृज्य इत्याहुर्ये अवान्तरे यज्ञम् भेदादे प्रथमा विष्टगातस्यामुत्सृज्यमित्याहुरेषी मासोऽपि सरयदिनारिष्टमुत्सृजे योजनारिष्टमुत्से पुनःपरिजावे मध्येषु रहस्य सम्पद्ये हस्तस्यजे वसुमते पुलोडाशमष्टाकपालन्भवेन्द्रन्दधीन्द्राय मरुत्पदे पुलोडाच वैकालशगपालं वैश्वदेवन्तालशगपालमग्ने वसुमदप्रालस्तवनयज्ञजे वसुमते पुलोडाशमष्टाकपालन्यर्भवन्ति देवतामेव तद्भागिनी कुर्वन्ति समनमष्टाभिरुपयन्ति न्नच्चा वयन्तीङ्गस्य वै मरुत्वतो माद्यन्तिन्द्राणि भरुत्वदेवकादशगपाल निर्भवन्ति देवतामेव तद्भागिने कुर्वन्ति तवनमेकादशभिर्वयन्दविश्वेधां वै देवानां प्रभुमतान्द्रियमै यद्वैश्वदेवं दादशगपाल निर्भवं च देवतामेव तद्भागिने कुर्वन्ति तवनं दादशभिर्वयम् दिप्राजापत्यं पशुमानभन्ते जापति यज्ञस्यानुसर्गायाभिवर्तयितः शन्मासो ब्रह्मधामम् भवति ब्रह्मभिमर्ता ब्रह्म नैव तत्सुवर्गम् लोकमभिवर्तयन्तोयन्ति प्रतिकूलविवहीतस्वर्गो लोकयन्लकृत्य शिक्षा न अस्मिन्पुरोः जगामजेमाज्योत जेमहे चमत आगतागोषन्मासौ ब्रह्मतामम् भवे लोकाज्योतिप्रजाोकम् पश्यन्तभिपतन्त आगन्ति जग्गुणामिन्द्रियम् वेर्यमपामत्तत्क्रोधे नामारुन्धर तत्क्रोधश्च क्रोधत्व यत् क्रोधेणात्पालस्यान्ते स्तुवन्ते यज्ञस्यैवान्तङ्गत्वेन्द्रियम् वेर्यमपरुन्धरे जाहवनीयस्यान्ते स्तुवन्त्यज्ञमेवोपद्रष्टारङ्गत्व प्रजापतेन्द्रस्तुवन्ति श्रो पुरस्ताच्छरदस्तु मन्त्रिश्लोकेन पश्चाद्देवान्तम् गत्वा श्लोकभाजो भवन्ति नवभिरद्भर्गृद्गाय नववे गुरुडे प्राणा प्राणानेव इदमानेन सर्वा भवन्ति प्राणे देवेन्द्रेन्द्रत्यप्रतिहृदाभिर्गाय तेत् पुरुषः सर्वानि श्रेष्णाङ्गानि प्रत्ययधिरेव न पञ्चल जगुणसन्दम् भवनेन्द्रियमेवाहुन्दरे ैवतेन जायन्तरेण विभुंशम् भद्रन्दा प्रतिष्ठे पत्रय प्रजात्यै प्रजापते प्रजाम यथा सा भागौ राज्यं वरेयामि तासागौ राजनेनैव राज्यं वर्येतद्राजनस्य भवति प्रजानामेवज्यं वर्यन्त्य पञ्चविहंशं भवति प्रजापते राज्ये तिष्ठन्तं नाद्यमवरुन्धदेवस्तु वन्द्यञ्चविशोक्षन्ते कैकजातोन्नाद्य सम्भृत्यते च आत्मन् दधते तस्मात् प्राणस्तर्वाण्यङ्गान्यो यथा सुबमुत्पदिश्यन् शिलवुत्तमं पुरदयमेव गच्छन्ति प्रयङ्कं भवताैव पृष्ठगंधस्यैव विष्टवं गच्छन्ते तावन्त लोकास्तेष्वेव गच्छ पूर्वं प्रतिच्छन्तिक्रमणमेव लप्स्य ञ्जलमानाः कुरुदलेषु वर्णकृष्णोकस्य नमष्टे प्रजा अर्जै रवेशहस्रज प्रजापति प्रजाैराङ्गेनैराङ्गौतामवानुन्धयं भवति प्रजादेवयमानास्फलं दैलान्द्रं भवने प्रजाभ्यदेव दृष्टाद्भ्यैराङ्गौतामवरुन्धरे तस्माद्भ्यागं समागं सत्रयो समर्थ्यं क्षोधुकास्तागं समां प्रजायज्ञादामोद्रमाद्यागौ समा व्यर्धमक्षोधुकास्तागुं समानख्यादा मुत्रोदं कुर्मदेकथाबन्धान्त्रोदं कुर्मद एवमेव कुर्वद विषमोर्चमात्मन्वेन्द्रिये प्रतिष्ठन्त्यादिन्धामन्त्यभिजिरस्याभिजित्येन्धवे समाघ्रन्व वाचमरुन्धरे भूमिदं विष्टादामे मा वरुन्धते पुराण्यस्य क्रोशति पुराण्येवेनां भोजेष्पेमान्नाद्यन्तधाकृषिकृतं च वागेश्वतं चोर्मेन्धरे नि भवन्ति भयस्यावरुद्धीयन्ति बागुरा संवत्सरौन्यर्वेति मिथुणौ सम्भव हस्तेनैव मिथुरान् नयन्ति र्माभिन्दन्ति पात्मानमेवेन्दन्ति पापनात्सेर्माद्याक्षेरित्याह सम्प्रत्यवेदाम् आत्मानमोभिन्दन्त्यश्चन्ति पदो लेक्षते रम्भङ्गायन्तोपसवै देवानाम् परमान्नाद्यम् परममेवान्नाद्योरन्धरे पदो लक्षन्ति महीनामेवैषे स्वाहान्तरिक्षा यस्वाहा निवे स्वाहा सम्प्लोष्यते स्वाहा सम्प्रदमाना यस्वाहा सम्प्रदा यस्वाहा मेघायिष्यते स्वाहा मेघायते स्वाहा मेघिता यस्वाहा मेघा यस्पाहा निहारा यस्वाहा निहाकारे स्वाहाः प्राधना यस्वाहा प्रधनाकारे स्वाहा विद्यो युष्यते स्वाहा विद्योतमाना यस्पाः संविद्योतमानाः य स्वाहा स्तनयिष्यते स्वाहा स्तनयदे स्वाहोग्रजस्तनयदे स्वाहा भविष्यते स्वाहा वर्षते स्वाहाभिवर्णते स्वाहा परिवर्णते स्वाहा संवर्षते स्वाहानुवर्षते स्वाहो गृह्णे स्वाहो गृहेणा यस्वाहा विप्रोक्षदे स्वाहा विप्राणा यस्ताः विप्लदा यस्वाहा स्वाहा तपदे स्वाहोग्रमा तपदे स्वाहर्भ्यस्ताः इरभ्यस्ताः स्वामभ्यस्ताः गिरभ्यस्ताः वेदेभ्यस्ताः गासाःभ्यस्ताः नाराजगुंसेभ्यस्ताः रैभिःभ्यस्ताः सर्वस्मै स्वाहा पदे स्वाहा दन्दकाय स्वाहा प्राणिने स्वाहा प्राणा यस्वाहा स्वाहा मुखा यस्वाहा नाशिकपदे स्वाहा नासिका यस्वाहाण्पदे स्वाहा दक्षिका यस्वाहाने स्वाहा गन्दगाय स्वाहा शीर्षण्पदे स्वाहा शीर्षका यस्वाहा Spaha Vada Desh, Spaha Pascha Desh, Spaha Junva Desh, Spaha Manasminet, Spaha Manasminet, Spaha De Tuska Es, Spaha Ad Prajad Desh, Spaha Ad Prajananaga Es, Spaha Lomaga Es, Spaha Ad Prajay, Spaha Tukka Es, Spaha Charman Vada Desh, स्वाहा शर्मगाय स्वाहा लोहितवदे स्वाहा लोहिताय स्वाहा वागु संवदे स्वाहा वागुजगाय स्वाहा श्रावभ्यस्वाहायस्वाहा सन्वदे स्वाहा मस्थ्यगायस्वाहा मज्जन्वदे स्वाहा मज्जगायस्वाहाले स्वाहा गङ्गायस्वाहात्मने स्वाहात्मने स्वाहा सर्वस्मै स्वाहा कस्त्वायनसत्त्वायनत्वविष्णस्तायनत्वस्य यज्ञस्य क्यकम् सन्नत्या पुष्णेता वायाय त्वा प्राणायत्वापानाय त्वा व्यानाय त्वा व्युष्टे त्वारिजे त्वा राधये त्त्वा घोषाय त्वा घोषाय त्वारा घोषाय त्वा प्रच्छुत्ये त्वा ग्नये गायत्राय त्रिपते रासन्तलाय वासन्तायाष्टाकपाल इन्द्रायत्रेष्टभाय पञ्चदशाय मायज्ञेष्पायेकादशगपालो विश्वेभ्यो देवेभ्यो जाग्रदेभ्य सप्तदजभ्यो वै रोमेभ्यो पार्षभ्यो द्वादशगपालो मित्रा वरुणाभ्यामानुष्टभाभ्यामेकुंशाभ्याम् वै राजाभ्यागुंशारदाभ्याम् पयस्यादयस्त ङ्कायत्र वायहा कराय हैमन्दिकाय शरस्वयच्छं दसाय त्रय त्रिणुंसाय देवतायधेशराय द्वादशकपालो लित्ते वित्तपत्ने षरुग्नय वेश्वादनाय द्वादशकपालो न पत्ते छरुक्कागय ज्ञावग्निप्रक्रियते यश्च सोमो नाशयो देश आदिथ्यैय लग्ने सोमीयो जैष रुद्रो यते यच्छन्ति ते वेदानि हवेकंषिण गर्ववेदेष एव रुद्रोषा अन्तपोत्थाय प्रजामानस्याभिमन्ये न यच्छन्ति ते अज्ञावेदानि हवेकंषि गर्वपतिभागधेदेनैव कौशमय जिलाश्च रुद्रोषा अन्तपोत्था पशूनभिमन्य हवेगौषि भवन्ति नैकाले तथा च सोदशाः कलाविदानन्दम् विराज विराज्यवान्नाद्यर्थत्रन्दोभिस्तोमे पृष्ठैश्चेदव्ययित्या हव्यदेतानि हवेगौषभत्रैन्दोभिस्तोमे पृष्ठैश्चिषस्त भिजित्या इत्याहेतां शिनर्मपति दिशामभिजित्या एतगामायन्द्रम् देवाजगन्तस्पान्द्रमगेतगामनम् मनुष्या सत्पान्मनसमोन्द्रदेवानाम् यथा मनम् मनुष्याणामेवम् भवति यगेवम् विद्वामेतयेत्यादिज दे दिग्वदे पुरोनमाख्या भवन्ति सर्वासाम् दिशामभिजित्यै ष्टाणतो निमिषतो महि ग्राजगतो बभूव उपयामेदाय प्रजापतय त्वानुष्ठम् गृह्णावितश्चौर्महिमालक्षत्रायमादित्यस्मै प्रजापतये स्वाहा यस्य विश्व उपादयस्य देवाः यस्य छायामदयस्य मद्रः कस्मै देवाय हमिषाभिधेवायामिदोऽधिप्रजापतये त्वाजुष्टम् गृह्णामि तस्य देव पृथिवीमहिमौषधयोपदयोस्मैम् न प्रजापतये स्वाहा ब्रह्मन् ब्राह्मणो ब्रह्मवच्चे जायतामास्मिन् राष्ट्रे राजन्यैरग्भ्योरो महारथो जायतान्दोग्धेवा नासुस्तोगायष्टो रथेष्ठाः सभे योगिनस्य यजमानस्य भीरो जायतान्निकामे निकामेणः क्रान् वज्ञङ्गिनमगधराज्यर्वाक्रान् वाद्यन्तरिक्षम् वायुञ्जिनमगधराज्यर्वाज्ञां वाज्याक्रज्ञतो मगतवाज्यर्वाज्ञस्ते वा जनयुङ्गभे स्वस्ति मासं पारय वा यस्ते वा जनयुङ्ग्तारभे स्वस्ति मासं पारया नित्यस्ते वा जनयुङ्गमत्तारभे स्वस्ति पारय प्राणशेषप्राणम् मे ज्ञान ज्ञानम मे तृगोहा पानिगस् पान् मे त्रृगूह्रम्ण्धेमिधे यज्ञबीजम्पष्टाभन्यः पक्ता सिप्ला ओषेजुंसोन्तरिक्षंसु भगवानस्योपस्थानाद्यौ शिवपसौतपेरात्रयपञ्चदशिनास्त्रिगुंसुमासाुक्तार्तमः ोः ट्टाकपालः सौम्यश्चरस्वामित्रोः टाकपालपौष्णश्चरो रौद्रश्चरुदग् नृगा खडेकदिनागच्छेदग्रयेगम् भौमु जयष्टागपाल सौर्यम् पयो वायव्य आज्यभागः अग्रजेगम् भौमु जयष्टागपाल इन्द्राजागुम् भौमुजयेकादशकपालो मित्रावरुणः ्यामा गोमुद्भ्याम् प्रयस्या माजो सामित्रा गोमुद्भ्याम् चतुरस्य मा गोमुद्भ्यान् धाना वर्धगे नो ज्ञये समनमत् पृथ्वे समनमद्य सा पृथिव्या समनमदेवं मह्यं भद्रास्तन्नमन्तु भारवेदमन्त्रेक्षाय समनमद्य वायुनन्दरिक्रेणेतमनमन्यक्षत्रेभ्यस्तमनमध्यसाय क्षत्रेभ्यस्तमनमद्यथा वरुणाद्विस्ताम् ब्रह्मणेतमनवक्षत्रायधमनमद्यथा ब्रह्मक्षत्रेण राज्ञे समनवद्विषेधमनमद्यथा राजा विशारसा यशमनमदश्वेभ्यस्तमनमद्यथा रथोश्वे प्रजापदगे समनवद्भूतेभ्यस्तमनमद्यथा प्रजापदद्भूते समनवदेवम् मह्यम् भद्राः सन्नतयः सन्नमन्तु न्थानस्वमितः पूर्व्यासो भो वितता अन्तरिक्षे एभिर्नो अद्यपतिभिः सुगेभि रक्षा च नो अधिजिलेव ब्रूहि नवोद्रयुषवीक्षिते लोकस्पृते लोकमस्मै यजमानायदे नमो वायवेन्तरिक्षरक्षिते देहि, लोकमस्मै यजमानाय नमसूद्रियागजवीक्षिते लोकस्मृते लोकमस्मै यजमानागजेहि अश्वस्य मेभ्यश्च शिरो वेद शिर्षण्वान् वेध्यो भवत्युषा अश्वस्य मेध्यस्य शिरस्वोर्यश्चक्षुर्वादः प्राणश्चन्द्रमाश्रोत्रिषः पादावान्तरृशाः परिशवोः रात्रे निर्धमासाः पर्वाणि माधाः सन्धानावोऽवत्सर आत्मानस्पयक्षेदा नक्षत्राणि स्थानि न भो वा निनस्पदयो माला अग्निर्मुखं वैश्वानरोतकं समुद्रमुदलमन्तरिक्षं वायुर्द्यावापृथिवी आण्डो ग्राभाषे अस्वरेतो यद्यञ्जभ्यते तद्विद्योतस्तय जीर्मे हरिषद्वर्षति वागे वागहर्वाश्व पुरस्तायते पश्चादनुजायतनेतौ महिमानामश्वमभिनः महिमा सम्बोवधुर्भयो देवानवधर्वाधुरानुष्या समुद्रो बाश्वस्य यो यः समुद्रो बन्धुः वो सप्तमकाण्डः समाप्तः कृष्णयजुर्वेदे संहिता सम्पूर्णम्